श्रीमद्भागवतमहापुराणं चतुर्थस्कन्ध अथैकविंशोऽध्यायः मैत्रे उवाच मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणै महासुरभिर्भूभिधूपैर्मण्डितं तत्र दद्रवै चन्दनागुरुतोयार्दरथ्या चत्वरमार्गवत वस्पाक्षतफलैस्तोमैराजैरर्चितम्भिरर्चितम् संवृन्दैः कलं कदलीस्तम्भैः पूगपोतैः परिष्कृतम् तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् प्रजास्तम् दीपबलिभिः सम्भृता शेषमङ्गलैः अभिजुर्मिष्टकन्यास्य मिष्टकुण्डलमण्डिताः शङ्खदन्दुभिर्घोषेण ब्रह्मघोषेण चतुजां विवेशभवनं वीरसूयमानो गतस्मयः पूजितपूजयामास तत्र तत्र महायसाः पौरान् जानपदान् श्लान् श्लान् प्रीतप्रियवरप्रदः स एवमादिन्यनं दद्य चेष्टित कर्माणि भूयान्ति महान् महत्तमः कुर्वन् शशासावनिमण्डलं यशस्मितं निधाय रुरुहे परं पदं श्रोतुवाच तदातिराजस्य यशो विजृम्बितं गुणैरशेषैर्गुणवस्य भाजितं श्रद्धा महाभागवत सदस्पते अर्चयन् विदुर्वाच सोऽभिसिक्त पृथिर्विप्रै लब्धाशेषुरार्हणः बिभ्रत्स्वैष्णवं तेजो बाहोऽभ्यां दुदुहोऽगां को न स्वकीर्तिं न शृणोत्यभिज्ञो यद्विक्रमो चेष्टमशेषभूपाः लोकासपाला उपजीवन्ति कामम् अद्यापि तन्मेवद् कर्म शुद्धम् नैत्य उवाच गङ्गायमुनयोर्नद्योरन्तराक्षेत्रमावसन् आरब्धानेव भुवजे भोगान् पुण्यजिहाशया सर्वत्राखलिता देशशब्ददीपैकदन्यथे अन्यत्र ब्राह्मणकुलाद्यन्यत्र अच्युतगोत्रतः एकदा सिन्महासत्र दीक्षा समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तमा तस्मिन् हस् हस्तु सर्वेषु स्वरञ्चित्तेषु यथार्हत उत्थितः सदसो मध्ये ताराणाम् मुदुरादिव प्रांसोऽपि नायतभुजो गौरकञ्जारुणेक्षणः सुनाशमुख सौम्य पीनां जोढवक्षा बृहत्स्रोणेर्वलिवल्गोदलोदरः आवर्तनाविरोजस्वीकाञ्चरोरूरदग्रपात् सक्ष्मवक्रासितस्निग्धं मृधय कम्बुकन्धर महाधने दुकूलाग्रे परिधायोपवीयत दञ्जिताशे सगात्र श्रीनियवेदयस्तभूषणः कृष्णाजिनधर श्रीमान् कृषपाणि कृतोचितः शिशिरस्निग्धं ताराक्षशमैक्षतसमन्ततः रुचिवाले तवमुर्वीश सदसंघर्षयन्निव चारुचित्रपदं सष्णं वृष्णं गूढमिवप्लवं उपकारार्थं तदा अनुवदन्निव राजवाच सभ्या शृणुत भद्रं वा साधवो य इहागताः सत्सु जिज्ञासुभिर्धर्ममावेद्यं श्वमनीषितम् अहं दण्डधरो राजा प्रजानामिहयोजितः रक्षितावृत्तिदस्तु शेतेसु स्थापिता पृथक् तस्यमेतदनुष्ठानाद्यानान् दुर्बं ब्रह्मवादिनः लोकः शिवकामसन्दोहायस्य तुष्यति तिष्ठति य उद्धरेत्करं राजा प्रजा धर्मेषु शिक्षयन् प्रजानां समलं भुङ्क्ते भगं च स्वं जहाति स तत्प्रजापिं भत्रे पिण्डार्थं स्वार्थमेवानसूयवः कुरुधाक्षजद्धीय तर्हि मेनुग्रहकृतः योऽयं तदनुमोध्वं पितृदेवर्षियो मनाः कर्तु सासूरनुज्ञातो तुल्यं यद् वे च तत्फलम् अस्ति यज्ञपतिर्नाम केशाञ्चिदर्शसप्तमाः इहामुद्रा च लक्ष्यन्ते ज्योत्स्नावत्य क्वचिद्भुवः ननुरुत्नानपादस्य ध्रुवस्यापि महीपतेः त्रियव्रतस्य राजसे रङ्गस्यास्मद्वितोपितु ईदृशानामथान्येषां अजस्य च भवस्य च प्रह्लादस्य कृत्यमस्ति गदाभृतां दौहित्रादीनृते मृत्यो शोच्यां धर्मविमोहितान् वर्गस्वर्गापवर्गाणां प्रायेणैकात्महेतुनाम्